श्रीमद्देवी भागवतवादश स्तब्ध गायत्री सहस्रनाम क्रम पदक्रांता पद कामे तरुणादिकाशातापेतुनाल्ञान समिवेणी च्रिलोचना तिदक्त ऋत्रिपुरा तुंगा तोरंगदनाथात्रिंगीलिला तिब्रा स्त्रोताम सा तन्त्रमद्रविशेषज्ञा तनुमध्या त्रिवेष्टपा त्रिसन्ध्या त्रिसत्तनेतोषा संस्थाताल प्रतापिने ताटङ्कने तु सारा भातु हि नाचलवासिनी तन्तुजालसमायुक्तां तारलिप्रिया तिल होम तलोदरे तिलाभूषा ताटङ्कप्रियवाहिनी ते जटा त्रित्तरी तृष्णा त्रिविधा तरुणाकृतिः तप्तकाञ्चन सङ्काशा तप्तकाञ्चन भूषणा त्र्यम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी तर्पणा तृप्तिदा तृप्ता तावधि तुम्बरुस्तताम् तार्श्यस्थां त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः तात्कारी थारवान्ता दोहिनी दीनवसला दानवान्तकरी दुर्गा दुर्गासूर्निमर्षिणी देवरीतिर्दिवा रात्रि द्रौपदी तुन्दुभीश्वरा देव्यानी दुरावासा दारिद्र्योद्भेदिनी दिवा दामोदरप्रिया दण्डकारण्यडलया दण्डनी देवपूजिता देववन्द्यान्दा द्वेषणी द्वेश्यंदा, दानवाकृते दीनानानसुता स्क्षां देवतादिस्वरूपिणी धात्री धनुर्धरा धेनुरुर्धारिणी धर्मचारिणी धनन्धरां धराधारा धनदा धान्यदोषिणे धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा धृतिर्धन्या धर्मराज धर्मराजप्रिया ध्रुवा धूमावती धर्मशास्त्र धर्मशास्त्रप्रकाशिनी नन्दानन्दप्रिया नि। निद्रा नृतूणाम् नि। निनूता नन्दनात्मिका नर्मदा नलिनी नीला नीलकण्ठसमाश्रया नारायणप्रिया नित्या निर्मला निर्गुणानिधि निराधारा निर्गुमा नित्यशुद्धा नादबिन्दुकलातीता नादबिन्दुकलात्मिका निसिंहणी नकधरागविभूषिता नरक्लेशमणी नारायणपदोद्भवा निर्वज्या निराकारा नादप्रियकारिणे नानाज्योतिसमाख्याता निधिरा निर्मलात्मिका नवसूत्राधरा नीतिर्निरुपद्रवकारिणे नन्दजा नवरत्नाढ्यानिषारण्यवासिने नवनीतप्रियाचारी नीलजीमूर्तिनिस्वना निवेशनी नन्दिरूपानुलग्रीवानिहीश्वरी नामावलिसम्भग्ने नागलोकनिवासिनी नवजाम्बुनदं प्रख्यानागलोकधिदेवता नृपुराक्रान्तचरणां नरचित्तप्रमोदने निम्ग्ना रक्तनयनाघातमीस्वरा नंदनोद्यानल्यूहो पीचारिणी पार्वती परमोदारा पर्रह्मात्मका परा पंचकोश् पंचपातकनाशिनी परचितध्या पंचिका पंच पूर्णिमा परमा प्रीति परशिनी पुराणी पौरुषि पुण्या पुंडलीग निवीक्षण पातालं तन्निर्मग्ना प्रीता प्रीतिविवर्धिनी पावनी पादसहिता पेसला पवनाशिनी प्रजापतिपरि श्रान्ता पर्वस्तन्मण्डला पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसंभवा पद्मपत्रा पद्मपदा पद्मनि प्रियभासिनी पशुपाशाभि निर्मुक्ता पुरन्धी पुरुवासिनि पुष्कुला पुरुषा पर्वा पारिजात सुमप्रिया पतिव्रता पवित्रा पुष्पहासपरायणा सुता पौत्री पुत्रपूज्या पयश्विनी पट्टिपाशधरा पङ्क्तिः पितृलोकप्रधायिनी पुराणी पुण्यशीला च प्रणतार्ति विनाशिनि प्रद्युम्नजन्ये पुष्टा पितामहः परिग्रहा पुण्डरीक पुरावासा पुण्डरीकसमानना पृथुजङ्घा पृथुभुजा पृथुपादा पृथुदरे त्रवालशोभा पङ्गाख्ये पीतवासा प्रजापतापतलां प्रजापलां प्रथवा प्रणवागतिः पञ्चवर्णा पञ्चमाणी पञ्चिका पञ्चरसिता परमाया परं ज्योतिः परप्रीतिपरा पराकाशा परेशी पावी पावक्युति पुण्यभद्राचेद्या स्वहासा पृथूदरी पीतांगी पीतवसना पीतशिया पीतक्रिया चग्नी पाटलाक्षी पटु क्रिया पंचभक्ष प्रिया चारा मध्यस्था पुण्यतीर्थ निषेता पंचांगी चराशक्ति पुष्पकाण्डसिता पूषा पोषिता अखिलं वृषपा पानप्रिया पञ्चशिखा पन्नगोपरिषायिनी पञ्चमात्रात्मिका पृथ्वी पथिका पृथदोहिनी पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी पुण्यप्रदा पारदात्रीन् प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी फलिनीफलदा फल्गो फुत्कारी फलकाकृतिः फलीन्द्रभोगसयनां बणिमण्डलमण्डिता बालबाला बहुमता बा, बाताल बालात् बणिभांसुका बलभद्राप्रिया वन्द्या वट्वा बुद्धिसंस्तुतां वन्दीदेवी विल्लुवतीं बलिसग्नी बलिप्रिया बांधवी बोधिता बुद्धिर्बंधुकुसुम्रिया बाल भा प्रभाकारा ब्राह्मी ब्राह्मण देवता बृहस्पति सुतुता बृंदा वृंदावन विहारिणी बालाकली बिलाहारा बिलवासा बहुदका बहुने बहुपदा बहुकर्णावंसि बहुबाता बीज रूपी बहु बिंदुनाद कलातीता बिंदुनाद स्वरूपी बद्धगोधाङ्गुलित्राणां बदर्याश्रमवासिनी बृन्दारका बृहत्कस्कन्धा बृहती बाणपातिनी बृन्दाध्यक्षा बहुनुता भणिता बहुविक्रमा बद्धपद्मासनासीना बिल्बद्रतलस्थिता बोधिद्रुमनिजावासा बलिष्ठा बिन्दुदर्पणा बिन्दुदर्पणां बालाबाणां सनवती बडवा ब्रह्माण्डबहिरन्तस्था ब्रह्म कङ्कणसूत्रिणी भवानी भीषणवती भावनी भयहारणी भद्रकाली भुजगङ्गाक्षी भारती भारताशया भैर्वीभीषणाकारा भूतिदा भूतिमालिनी भावनी भोगनिरता भद्रदा भूरिविक्रमा भूतवासा भृगुलतां भार्गवीं भुजरार्जिता भागीरथी भोगवती भुवनस्था विशङ्करा भाविनी भोगनी भाषा भवानी भूरिदखिणा भर्गात्मिका भींवतीधोबन्धविभोचिनी भजनीया भूतधात्री रञ्जिता भुवनेश्वरी भुजङ्गवलया भीमा मेरुण्डा भागधेयिनी माता माया मधुमती मधुजिह्वा मधुप्रिया महादेवी महाभागा मीनलोचना मी मायातीता मधुमती मधुमांसा मानवी मधुसम्भूता मिथिलापुरवासिनि मधुकैटवन्तघन्त्री मेदिनी मेघमालिनी मन्दोदरीं महामाया मैथिलीं मदृणप्रिया महाकाली महा महाकन्या महेश्वरी माहेन्द्री मेरुतनिया मन्दारकुसुमर्चिता मञ्जूमञ्जीरचरणा मोक्षदां मोक्षदा मञ्जुभाषिणे मोक्षदा मथुरद्राविणी मद्रा मलया मलयान्विता मेधासरं गतश्यामा मागी मेरकात्मजा महामारी महावीरा महाश्यामामनुसृतां मातृकामहीं महिराभाषा मुकुन्दपदविक्रमा मूलाधारसिता मुग्धा मणिपूरकवाशरे मृगाक्षी महिषारूढां महिषासुरविमर्दिरे योगासना योगम्या योगयौवनकाश्रया योग यौवनि युद्धमध्यस्था यमुना युगधारिणी